कटाक्षशतकम् मोहान्धकारनिवहम् विनिहन्तु मीडे मोकात्मनामपि महाकवितावधान्यान् श्रीकाञ्चिदेशशिशिरिकृतिजागरूका एकाम् करुणावलोकान् मातर्जयं ममदाग्रह मोक्षण महेन्द्रनीलरुचि चीक्षणिणा कामिजग त्रयरक्षणानि त्वद्वीक्षणानि वरदान विसक्षणानि आनङ्गदन्त्रविति दर्शित कौशलानाम् आनन्दमन्दपरिगूर्णितमन्धराणाम् तारल्यमम्ब तव ताटितकर्णसीम्ना कामाक्षिकेलतिकटाक्षनिरीक्षणानाम् कल्लोलितेन करुणारसवेल्लितेन कल्माषितेन मनीयमृदुस्मितेन मामाञ्चितेन तव किञ्चन कामाक्षितेन शिशिरीकुरु वीक्षितेन साहम् कदवति मुकुरर्जुनस्य मन्दस्मितस्य परितोक्षितभीमशेताः कामाक्षि पाण्डवचमूरिवदावकीन कर्णान्दिकम् चलति हन्तकटाक्षलक्ष्मे नयतु मे परितापसूर्यम् आनन्दशन्त्रमसमानयताम् प्रकाशम् कालान्धकारसुषमाम् कल्यन्ति घन्ते कामाक्षि कोमलकटाक्षनिशागमस्ते ताडङ्गमौति गरुषाम् कुरदन्तगान्ति कारुण्यगस्तपशिकामणिनाधिरूढः उन्मूलयत् वसुपभातपमस्मदीयम् कामाक्षितावककटाक्षमदङ्गजेन्द्रः का छायाभरेण जकतां परितापहारी ताडङ्गरत्नमणितल्लजपल्लवश्री कारुण्यनाम लौहित्यकोकनदगाननमाननी यान्ति तव स्मरकरान कान्ति सिन्धुम् कामाक्षि राजति कटाक्षकलिन्दकन्या प्राप्नोति यम् सुकृदिनम् तव पक्षपादात् कामाक्षि सत्यस्तमेव किल तस्मादितान्तमनयोरिदमैकम त्यम् यान्ति सतैव मरुतामनुकूलभावम् ब्रुवलीचक्रदनुरोल्लसितारसार्द्रा कामाक्षि कौतुकतरङ्गितनीलकण्ठा कादम्बिनीव तव पाति कटाक्षमाला गङ्गाम्बसि स्मितमयेत्तपनात्मजेव गङ्गातरोरसि नवोत्पलमालिकेव वक्त्रप्रभासरसि शैवलमण्डलीव कामाक्षिराजति कटाशरुचिच्छटाते संस्कारत किमपि कन्तलितान् रसज्ञान् कल्याणसु तिलहरी कलमाङ्कुरान्न कामाक्षि कन्तलयतु त्वधभाङ्गमेघः साञ्चल्यमेव नियतम् कलयन् प्रकृत्या मालिन्यभूश्रुतिपदाक्रमजागरोगः कैवल्यमेव करुणाकटाक्षः सञ्जीवने सम्मोहने शशिकिशोरकक्षेखरस्य संस्तम्भने च ममदाग्रहचेष्टितस्य कामाक्षिवीक्षणकला परमौषधं ते नीलोऽपि रागमतिकम् जनयन् पुरारेः लोलोऽपि भक्तिमधिकां समतां वितन्वन कामाक्षि नृत्यदुमयि त्वदवाङ्कभात कामतृगोह्यदय कामाशिषञ्जलदृकञ्जलमेकला ते आश्चर्यमम्बभजताम् झटिति स्वकीय सम्बर्क एव विदुनोदि समस्तभन्धान् कुण्टीकरोतु विपदम् मम कुञ्चितब्रु सा पाञ्जितश्रितविदेक जनयन् जगत्याम् कामाक्षि करुण कटाक्षः श्रीकामकोटिशिवलोचन शोषितस्य शृङ्गारबीजविभवस्य पुनः प्ररोहे प्रेमाम्बसाद्रमशिरात् प्रशुरेण शङ्गे केदारमम्ब तव केवलदृष्टिपादम् माहात्म्य सेवति रसौ तव दुर्विलङ्घ्य संसारविन्द्यगिरिकुण्टनके लिचुञ्चुः धैर्याम् बुधिम् पशुपते शुलकीकरोति कामाक्षि वीक्षण विजृम्पणकुम्भजन्मा पीयूषवर्षशिशिरा स्फुटदुत्पलश्री ज्योत्स्नायते भगवति त्वतवाङ्घमाला अम्बस्मरप्रतिभटस्य वपुर्मनोज्ञम् अम्बोजकानमिवाञ्छितकण्ठकापम् भृङ्गीव शुम्बति सदैव सपक्षपात कामाक्षि कोमलरुचिस्त त्वदबाङ्कमाला केशप्रभापटलनीलवितानजाले कामाक्षि कुण्टलमणिच्छविदीपशोभे शङ्के कटाक्षऋषिरङ्गतले कृभाग्या शैलूषिका नटति शङ्करवल्लभेते अत्यन्तशीतलमदन्त्रयदुक्षणार्धम् अस्तोकविभ्रममनङ्गविलासगन्धम् अल्पस्मिधातृतभारकृपा प्रभाहम् मन्दाक्षरागधरळी कृदि पारधन्त्र्यात् कामाक्षिमन्दरधराम् त्वदपाङ्कटोलाम् आरुह्य आनन्दमेति मुहुरर्दशशाङ्कमौळेः त्रयम्बकम् त्रिपुरसुन्दरि हर्म्य भूमि रङ्गम् विकारसरसी करुणाप्रवाह दासस्य वासवमुखा परिपालनीयं कामाक्षि विश्वमपि वीक्षण भूभृदस्ते वागीश्वरी सहचरी नियमेन लक्ष्मीं वसकरी भुवनानि गेहं रूपं त्रिलोकनयनामृतमम्भेषां कामाक्षिषु तव वीक्षण पारतन्त्री माघेश्वरम् झटिति कामाक्षि कामाक्षिधैर्यजलतो नितराम् निमग्नम् जालेन शृङ्खलयति त्वदवाङ्गनाम्ना विस्तारितेन विषमायुधदाशकोऽसौ उन्मत् बोधकमला करमम्बजाट्य स्तेम्भेरमम् मम मनो विबिने भ्रमन्तम् कुण्टीकुरुष्वतरसा कुटिलाक्रसीम्ना कामाक्षितावकटाक्षमहाङ्कुशेन उत्विल्लितस्तबहितैलितैर्विलासै य देवि तवघाट कटाक्षकुञ्जात् दूरम् पलाययतु मोघम् मृगुकी कुलम्बे कामाक्षि सत्वरमनुग्रहकेशरीन्द्र स्नेहादृताम् वितलितोत्पलकान्तिशोरान् जेतारमेव जगदीश्वरि जेतु मानोत्तधोमकरकेतुरसौ दुनीते कामाक्षि तावककटाक्षकृपानवल्लीम् श्रौतीं व्रजन्नपि सता शरणि मुनीना कामाक्षि सन्ततमपि स्मृतिमार्गगामि शौर्यं शबङ्गजरुषाम् नित्यम् श्रुते परिषितौ यतमानमम्भ नीलोत्पलम् निजसमीपनिवासलोलं। निवासलोलम् प्रीत्यैव पाठयति वीक्षणते सिकेन्द्रः कामाक्षि किम् तु तव कालिमसम्प्रधायम् भ्रान्द्वा मुकोस्तवकितम् स्मितबेन राशो आलम्ब्य देवि तव मन्तमबाङ्कसेतुम् शामातवत्त्रिपुरसुन्दरिलोचनश्री कामाक्षि कन्तलितमे दुरतारकान्तिः स्मितरुचापि कथम् तनोति स्पर्धामहो कुवलयैश्च तदा शकोरैः कालाञ्जनम् शतव देविनिरीक्षणम् च कामाक्षीम् साम्यसरणीम् समुप वैति कान्त्या निःशेषनेत्रसुलभम् जगतीषु पूर्वम् अन्यत्रिनेत्रसुलभम् तुहिनाद्रिकन्ये धूमाङ्कुरोमकरकेतनपावकस्य कामाक्षिनेत्ररुचिनीलिमचादुरीते अत्यन्तमद्भुतमितम् नयनत्रयस्य हर्षोदयम् जनयदेहरिणाङ्कमौळेः आरम्भले च समये तव वीक्षणस्य कामाक्षि मूकमपि वीक्षणमात्रनम्रं सर्वज्ञता सकलोकसमक्षमेव कीर्तिस्वयं वरणमाल्यवती कालाम्बुवाः इवते ते परितापहारी कामाक्षि पुष्करमतः कटाक्षः पूर्वपरम् क्षणरुचा समुपैति मैत्रे अन्यस्तु सन्ततरुचिम् प्रकटीकरोति सूक्ष्मेऽपि दुर्गमतरेऽपि गुरुप्रसाद साहाय्यकेन विचरन् अपवर्गमार्गे संसारपङ्कनिशये न पतत्यमुङ्क्ते कामाक्षि गाढमवलम्ब्यकटाक्षयष्टिम् कामाक्षि सन्ततमसौ हरिनीलरत्न स्तम्भे कटाक्षरुचिपुञ्जमये भवत्याः भक्तोऽपि भक्तिनिघलैर्मम चित्तहस्ति स्तम्भम् शपन्धमपि मुञ्चदिहन्तचित्रम् कामाक्षि काश्यन्यमभिसन्तदमञ्जनम् च बिभ्रन् विसर्गतरलोपि भवत्कटाक्षैर्वैमल्यमन्वहमनञ्जनतां च भूयः स्थैर्यम् च भक्तहृदयाय कथं दधाति मन्दस्मिदस्तबकितम् मणिकुण्टलांशु स्तोमप्रवालरुचिरं शिशिरीकृताशम् काम क्षिराजति कटाक्षरुचे कदम्भम् उद्यानमम्बकरुणाहरिणेक्षणायाः कामाक्षितावक कटाक्षमहेन्द्रनील सिंहासनम् श्रुतवतो महरध्वजस्य साम्राज्यमङ्कलविधौ मणिकुण्टलश्री नीराजनोत्सवतरङ्गितदीपमाला मादक्षणम् स्नपय तव मन्दाक्षितेन सुजनैरपरोक्षितेन कामाक्षि कर्मतिमिरोत्करभास्करेण श्रेयस्करेण मधुबद्युतितस्करेण प्रेमापघापयसि मञ्जनमारचय्युक् भस्म विलेपनेन, कामाक्षि कुंटल कुण्टलमणिद्यतिभिर्जटाल श्रीकण्ठमेव भजते तव दृष्टिपात कैवल्यधाय करुणारसकिङ्कराय कामाक्षि कंदलित कन्दलितविभ्रमशङ्कराय आलोकनाय तव भक् शिवङ्कराय मादर् नमोऽस्तु पुरतन्त्रिदशङ्कराय साम्राज्यमङ्गलविधौ मगरध्वजस्य लोलालकाविकृततोरणमाल्यशोभे कामेश्वरि प्रचलदु पलवै जयन्ति चातुर्यमेति तव सञ्चलदृष्टिपातः मार्गेण मञ्जुकशकान्ति तमोवृतेन मन्दायमानगमनामधनातुरासौ कामाक्षि दृष्टिरयते तव शङ्कराय सङ्केत भूमिमशिरादविशारिकेव व्रीडानुवृत्तिरमणीकृतसाहचर शैवा लता गलरुषा शशिशेखरस्य कामाक्षीम् कान्तिसरसीम् मन्दम् समाश्रयति मज्जनखेलनाय काषायम् सुखमिप प्रकटम् दधानो माणिक्यकुण्टलरुचिम् ममता अत्यन्तसीमनिरतश्रुतरांशकास्ति कामाक्षितावख कटाक्षयदीवरोऽसौ कामाक्षितावख कटाक्षयतीश्वरोऽसौम् पाषाण एव हरिनीलमणिर्दिनेशो प्रम्लानताम् कुवलयम् प्रकटीकरोति नैमित्तिको जलतमेश किमा ततस्ते कामाक्षिशून्यमुपमानमपाघलक्ष्म्याः शृङ्गारविभ्रमवती सुतराम् सलज्जा नाशाग्रमोक्तिकरुषाकृतमन्धः स श्यामाकटाक्षसुक्षमातवयुक्तमेतत् का कामाक्षिसुम्पतिदिगम्बरवक्त्रबिम्बम् नीलोत्पलेन मधुपेन सतृष्टिपातः कामाक्षि तुल्य इतिते कथमामनन्ति चैत्येन निन्दति यधन्वहमिन्धुपादान् पादोरुहेण कलहायदेश ओष्टप्रभापटलविद्रुममुद्रिदेते ब्रोवल्लिवीषि सुभगे मुककान्ति सिन्धौ कामाक्षि वारिभरपूरणलम्भमान कामाक्षि मल्लिकुसुमैनवपल्लवैश्च नीलोत्पलैश्च रशिदेव विपातिमाला कामाक्षि शीतलकृपारसनिर्जराम्प सम्पर्कपक्ष्मलरुचिस्तव बाङ्कमाला गोबी सदा पुररिपूरविलक्ष्यमाणा धूर्वा कदम्बकविडम्भनमातनोति हृत्पङ्गजम् मम विकासयतु प्रमुष्णन् उल्लासमुत्पलरुचे तमसाम् निरोद्ध दोषानुशङ्क झटताम् जगताम् दुनानः चक्षुर्विमोहयदि चन्द्रविभूषणस्य कामाक्षि तावकटाक्षतमप्ररोहः प्रत्यङ्मुखम् तु नयनम् स्तिमितम् मुनीनान् प्राकास्यमेव नयतीति परम् विचित्रम् कामाक्षिवीक्षणरुचा युधि निर्जितम् ते नीलोत्पलम् निरवशेषगदाभिमानम् आगत्य तत्परिसरं श्रवणावतं स व्याजेन नो नमभयार्तनमातनोति आश्चर्यमम्बमदनाप्युतयावलम्बः कामाक्षि सञ्चलनिरीक्षणविप्रमस्ते धैर्यम् विदूयतनुते हृतिरागबन्धम् सम्भोस्तदेव विपरीतदया मुनीना जन्तो सकृत्प्रणमतो जगतीत्यताम् च तेजस्विनाम् च निशिताम् समतिम् सभाया कामाक्षिमाक्षिकजरीमिव वैकरीम् च लक्ष्मीम् च पक्ष्मलयति क्षणवीक्षणम् ते कादम् विनी किमयते न भृङ्गावली किमुरीकुरुतेन पद्मम् किम् वा कलिन्ततनया सहतेन भङ्गम् कामाक्षि निश्चयपदम् ददवाक्षि लक्ष्मीर् काकोलपावगत्रृणीकरणे विधक्षम् कामाक्षि बालकसुधागरसेखरस्य अत्यन्तशीतलतमोऽप्यनुपारतं ते चित्तम् विमोह यदि चित्रमयं कटाक्षम् कार्पण्यपूररसवर्धितमम्बमोह कन्दोद्गतम् भवमयम् विषबाधपं ते तुङ्गं शिनत्तु दुखिनार्त्रिसुते भवत्याः काञ्चीपुरेश्वरि कटाक्षकुटारधारा कामाक्षि घोरबवरो चिकित्सनार्थम् अभ्यद्यदेशिककटाक्षभिषप्रसादात् तत्रापि देवि लभते सुकृति अन्यस्य दुर्लभभाङ्गमकौषधम् ते कामाक्षि देशिककृपाङ्कुरमाश्रयन्तो नानातपोनियमनाशितपाशबन्धाः महान्तः लब्ध्वा समदियो विशरन्ति लोके कामा सा कूतसं लपितसम्प्रतमुग्धहासं व्रीडानुराग सहचारि विलोकनम् कामाक्षि कामपरिबन्दिनि मारवीर साम्राजविभ्रमदशाम् सफलीकरोति कामाक्षि विप्रमफलैकनिधिर्विधाय ब्रूवल्लिजापकुटिमे चि स्वाधीनताम तव निना यस अर्दांगराज सुकलाभमीर कामकुरकय दृष्टिप काम भक्त मनसा प्रदध काम राय प्रकटीक वैराग्यमे कथमी क्ष महा मुनी का हे कलहायते काम काले मम दे सदा कटाक्ष प्रम् तथा विनितारममुवे दृष्ट्वा सोत्कण्ठये वरमते किल नीलकण्ठः कामाक्षिमन्मदरिपुम् प्रतिमारताप मोहन्दकारजलदाकमनेन निरत्यन् दुष्कर्म कञ्चुकि कुलम् कबलीकरोतु व्यामिश्रमेशकरुषि त्वदभाङ्गकेके कामाक्षिमन्मदरिभो का अवलोकनेषु कान्तम् पयोजमिव तावकमक्षिपातम् का प्रेमागमो दिवसवत्वीकषीकरोति लज्जापरो रजनि व्यन्मुकुलीकरोती मूको विरिञ्चति परम् पुरुष कुरूप कन्धर्पदी त्रदसराजति किम् पशानः कामाक्षि केवलमुपक्रमकाल एव लीलातरङ्गितकटाक्षरुषक्षणं ते नीलालकामधुकरन्ति मने ज्ञाना सा मुक्तारु च कामकोटि मन्ये ेव विलोचनम् ते आङ्काङ्क्ष्यमाणफलधानविषक्षणायः कामाक्षितावक कटाक्षः का कामधेनोः सम्पर्क एव कदमम् विमुक्तपाश बन्धस्फुटम् तनुवृतपसुताम् त्यजन्ति संसारकर्म परितापजुषाम् पर नराणाम् कामाक्षि शीतलतराणि तवेक्षितानि सन्द्रातपन्ति घनशन्तनकर्धमन्ति मुक्ता गुणन्ति हिमवारि कामाक्षितावकटाक्षनिरीक्षणानि सन्दुषयन्ति मुकुरीन्धनराशिरीत्या मारा दृको मनसि मन्मदचित्रभानुम् कालाज्ञनप्रतिभटम् कमनीयकान्त्या कन्तर्पतन्त्रकलया कलितानुभावम् काञ्ची विकाररसिके कलुषार्तिशोरम् कल्लोलयस्वमयिते करुणाकटाक्षम् क्रान्तेन मन्मद मदेन विमोह्यमान स्वान्तेन शूदतरुमूलगतस्य पुंसः कान्तेन किञ्चिदिवलोकयलोचनस्य प्रान्तेन माम् जननि काञ्चिपुरी विभूषे कामाक्षिके बिसुजनास्त्वदभाङ्गसङ्गे कण्ठेन कन्तलितकालिमसम्प्रदायाम् उत्तम् नंदीव नीलोत्पल प्रसव कांतिदर्शन कारुण्य विप्रमजुषा तव वीक्षण कामि कर्म जलते कलशी स्द पासद्रया परिमोचनीयाः अद्यन्तसञ्चलम् अकृद्रिममञ्चनम् किम् अजङ्कारभङ्गिरहिता किमु भृङ्कमाला धूमाङ्कुर किमु कुताचन कामाक्षि नित्यमयमञ्जलिरस्तु मुक्ति बीजाय विभ्रममधोदय कूर्णिताय कन्दर्पदर्प पुनरुद्भवसिद्धिधाय कल्याणदाय तव देवि दृगञ्चलाय दर्भाङ्गुरो मकरकेदनविभ्रमाणाम् निन्दा कुरो विदलितोत्पलचादुरीणाम् दीपाङ्कुरो भवतमिश्रकदम्बकानाम् कामाक्षि पालयतु माम् त्वदपाङ्घपादः कैवल्यदिव्यमणिरोकणपर्वतेभ्यः कारुण्यनिर्जरपयकृतमञ्जनेभ्यः कामाक्षि किङ्करितशङ्करमानसेभ्यः स्थेभ्यो नमोऽस्तु तव वीक्षणविभ्रमेभ्यः वी अल्पीय एव नवमुत्पलमम्बहीना मीनस्य वासरणिरम्बुरुहाम् च किम्ब दूरे मृगीतृगसमञ्जसमञ्जनम् च कामाक्षिवीक्षणरुचाम् तव तर्गमायः मिश्रीभवत्करलपङ्किलशङ्करोरसीमाङ्गणे किमपि रिङ्कणमार्ददान खेलावधूतललितश्रवणोत्पलोऽसौ कामाक्षि बाल इव राजदिते कटाक्षः प्रौढीकरोदि विदुषाम् नवसूक्तिधाटी सुताटवीक्षो बुधको किलवलाल्यमानाम् महद्वीरसम्परिमलञ्च निरर्गलं ते कामाक्षि वीक्षणविलास वसन्त लक्ष्मे कूलङ्कषम् वितनुते भुवर्षी सारस्वतं सुकृदिनः सुलभं रवाहम् तुच्छीकरोति यमुनाम्बुदरङ्गभङ्गी कामाक्षि किं तव कटाक्षमहाम्भुवाहः जाकर्ति देवि करुणा सुखसुन्दरीते ताडङ्गरत्नरुचिधाटिमकण्ठशोणे क्षमरीषिपुञ्ज माहेन्द्रनीलमणिपञ्जरमध्यभागे कामाक्षि सत्कुवलयस्य सगोत्रभावात् आग्रामति श्रुतिमसौ तव दृष्टिबादः कुटिलतां प्रकटी कुटिलताम् प्रकटीकरोति भ्रूवल्बरी परिचितस्य फलम् किमेतत् येषाम् तवाक्षिसुषमा विषमा नारा च वर्षलहरी नगराजकन्ये शङ्के करोति सददाकृतिधैर्यमुद्राम् श्रीकामकोटियतसौ शिशिरांशुमौलेः पाणेन पुष्पतनुष परिकल्प्यमान त्राणेन भक्तमनसाम् करुणाकरेण कोणेन कोमलदृशस्तव कामकोटि शोणेन शोषयसि वे मम शोकसिन्धुम् मारद्रहा मुकुटसीम् निलाल्यमाने मन्दाकिनीपयसि पयसिते कुटिलम् चरिष्णुः कामाक्षिकोपरभसात् बलमानमीन सन्देहमङ्कुरयति क्षणमक्षिपादः कामाक्षि संवलितमौक्तिककुण्टलांशो सञ्चत्सितः श्रवणशामरचाधुरीक स्तम्भे निरन्तरमभाङ्गमये भवत्या भतः शकास्तिमगरद्वजमन्तहस्ति यावत्कटाक्षरजनी समयागमस्ते कामाक्षि दावदशिरान्नमताम् नराणाम् आविर्भवत्यमृतदीदिति बिम्बमम्ब संविन्मयम् हृदय पूर्वगिरीन्द्रशृङ्गे कामाक्षि कल्पविटपीव भवत्कटाक्षो दित्सुत्समस्तविभवम् नमताम् नराणाम् भृङ्गस्य नीलनलिनस्य शकान्ति सम्पत् सर्वस्वमेव हरतीति परम् विचित्रम् अद्यन्तशीतलमनर्गलकर्मपाघ काकोलहारिसुलभम् सुतनो बिरेतत् पीयूषमेव तव वीक्षणमम्भ कामाक्षिनीलमितमित्ययमेव भेतः अज्ञातभक्तिरसमप्रसरद्विवेकम् अद्यन्तगर्वमनतीतसमस्तशास्त्रम् अप्राप्तसत्यम् असमीपकदम् च ोतेन पादकपयोतिपयाधुराणाम् भूदेन तेन नवकाञ्चनकुण्टलांशु वीदेन शीतलयभूतरकन्यके